त्वारिंशः सर्गः अथ तस्मिन्निमित्तानि दृष्ट्वा लक्ष्मणपूर्वजः सुग्रीवं सम्परिश्वज्य रामो वचनमब्रवीत् असम्मन्त्र्य तदिदं साहसं तदिदम् साहसम् कृतम् एवम् साहसयुक्तानि न जनेश्वराः संशये स्थाप्यमाम् चेदम् बलम् चेमम् विभीषणम् कष्टम् कृतमिदं वीरसाहसं साहसप्रिया इदानीम् मा वीर एवम् विधमरिम् दम त्वयि किञ्चित् समापन्ने किम् कार्यम् सीतया मम भरतेन महाबाहो लक्ष्मणेन यवियसा। शत्रुघ्नेन च शत्रुघ्नस्वशरीरेण वा पुनः त्वयि पूर्वमिति मे निश्चिता जानतश्चापि ते वीर्यम् महेन्द्रवरुणोपमा हत्वाहम् रावणम् युद्धे सपुत्रबलवाहनं बलवाहनम् अभिषिच्य च लङ्कायाम् विभीषणमथापि च भरते राज्यमारोप्य त्यक्ष्ये देहम् महाबल रामं रामम् सुग्रीवः प्रत्यभाषत तव भार्यापहर्तारम् दृष्ट्वा राघव मर्शयामि कथम् वीर जानन् विक्रममात्मनः इत्येवम्वादिनम् वीरमभिनन्द्य च राघवः लक्ष्मणम् लक्ष्मि सम्पन्नमिदम् वचनमब्रवीत् परिगृह्योदकम् शीतम् वनानि फलवन्ति च बलौघं संविभज्येमम् व्यूह्य तिष्ठाम लक्ष्मण लोकक्षयकरम् भीमम् भयम् निबर्हणम् प्रवीराणा वृक्ष वानर रक्षसा वाता हि परुषम् वान्ति कम्पते च वसुन्धरा पर्वताग्राणि वेपन्ते नदन्ति धरणीधराः मेघा क्रव्यादसङ्काशाः परुषाः परुषस्वराः क्रूराः क्रूरम् प्रवर्षन्ते मिश्रम् शोणितबिन्दुभिः रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा ज्वलच्च निपतत्येतदादित्यादग्निमण्डलम् आदित्यमभिभाष्यन्ति जनयन्तो महद्भयम् दीनादीनस्व राघोरा अप्रशस्ता मृगद्विजाः रजन्याम प्रकाशश्च सन्तापयति चन्द्रमाः कृष्णरक्तांशुपर्यन्तो यथा लोकस्य ह्रस्वो रूक्षो प्रशस्तश्च परिवेष सुलोहितः आदित्यमण्डले नीलम् लक्ष्मलक्ष्मण दृश्यते तेन यथावच्च नक्षत्राण्यभिवर्तते युगान्तमिव लोकस्य पश्य लक्ष्मणशंसति का काश्येनास्तथा गृध्रा नीचैः प्रवदन्ति महास्मनाः शैलैः शूलैश्च खड्गैश्च विमुक्तैः कपिराक्षसैः भविष्यत्यावृता भूमिर्मां स शोणितकर्दमा क्षिप्रमद्य दुराधर्षाम् पुरीम् रावणपालिताम् अभियामजवेनैव सर्वतो हरिभिर्वृताः इत्येवम् तु वदन् वीरो लक्ष्मणम् लक्ष्मणाग्रजः तस्मादवातरच्छीघ्रम् पर्वताग्रान्महाबलः अवतीर्यतु धर्मात्मा तस्माच्छैलात् स राघवः परैः परमदुर्धर्षम् ददर्श बलमात्मनः सन्नह्यतु स सुग्रीवः कपि राजबलम् महत् कालज्ञो राघवः काले संयुगायाभ्यचोदयत् ततः काले महाबाहुर्बलेन महता वृतः प्रस्थितः पुरतो धन्वी लङ्कामभिमुखः पुरीम् तम् विभीषण सुग्रीवो हनूमाञ्जाम्बवान्नलः वृक्षराजस्तथा नीलो लक्ष्मणश्चान्वयुस्तदा ततः पश्चात्सु महती पृतनर्क्षवनौकसाम् प्रच्छाद्य महतीम् भूमिमनुयाति स्म राघवम् शैलशृङ्गानि शतशः प्रवृद्धांश्च महीरुहान् जगृहः कुञ्जर प्रख्यावानराः परवारणाः औ त्वदीर्घेण कालेन भ्रातरौ रामलक्ष्मणौ रावणस्य पुरीम् लङ्कामासे दतुरीन्दमौ पताकामालिनीम् रम्यामुद्यानवनशोभिताम् चित्रवप्राम् सुदुष्प्रापामुच्चैः प्राकारतोरणाम् ताम् सुरैरपि दुर्धर्षाम् रामवाक्य प्रचोदिताः यथा निदेशम् सम्पीड्यन्यविशन्तवनौकसः लङ्कायास्तुत्तरद्वारम् शैलशृङ्गमिवोन्नतम् रामः सहानुजोधन्वीजुगोपचरुरोध च लङ्कामुपनिविष्टस्तु रामो दशरथात्मजः लक्ष्मणानुचरो वीरः पुरीम् रावणपालिता उत्तरद्वारमासाद्य यत्र तिष्ठति रावणः नान्यो रामाद्धितद्वारम् रावणधिषितीम्ब वरुणेगर सायुराक्षसैर्भमरभुप्त सूनाना द्रास जननम् पातालिव दान वै विस्ता बहून चुज जाला तथा कवचा च पूर्वमा हर चूपति अतिष्ठत्सह मैन्देन द्विविधेन च वीर्यवान् अङ्गदो दक्षिणद्वारम् जग्राहसु महाबलः वृषभेण गवाक्षेण गजेन गवयेन च हनूमान् पश्चिमद्वारम् ररक्षबलवान् कपिः प्रमाथिप्रहसाभ्याम् च वीरैरन्यैश्च सङ्गतः मध्यमे च स्वयम् गुल्मे सुग्रीवत्समतिष्ठत सः सर्वैर्हरिः श्रेष्ठैः सुपर्णपवनोपमैः वानराणाम् तु षट्त्रिंशत्कोट्यः प्रख्यातयूथपाः निपीड्योपनिविष्टाश्च सुग्रीवो यत्र वानरः शासनेन तु रामस्य लक्ष्मणः विभीषणः द्वारे द्वारे हरीणाम् तु कोटिम् कोटीर्न्यवेशयत् पश्चिमेन तु रामस्य सुषेणः सहजाम् अदूरान् मध्यमे गुल्मे तस्थौ बहुबलानुगः ते तु वानरशार्दूलाः शार्दूला, शार्दूला इव गृहीत्वा द्रुमशैलाग्रान् हृष्टा युद्धायतस्थिरे सर्वे विकृतलाङ्गूला सर्वे दंष्टानखायुधाः सर्वे विकृतचित्राङ्गा सर्वे च दश नागबलाः केचित् केचिद्दश गुणोत्तराः केचिन्नागसहस्रस्य बभूवुस्तुल्यविक्रमाः सन्ति चौघबलाः केचित् के अप्रमेयबलाश्चान्ये तत्र अद्भुतश्च विचित्रश्च तेषाम् समागमः तत्र वानरसैन्यानाम् शलभानामिवोद्गमः परिपूर्णमिवाकाशम् सम्पूर्णेव च मेदिनी लङ्कामुपनिविष्टैश्च सम्पतद्भिश्च वा नरैः शतम् शतसहस्राणाम् पृतनर्क्षवनौकसा लङ्काद्वाराण्युपा जग्मुरण्ये योद्धुम् समन्ततः आवृतः स समन्तात् प्लवङ्गमैः अयुतानाम् सहस्रम् तामभ्यवर्तत वनरबलविश्च बद्रुम पिभ संलुष्रवेशुना राक्षसा विस्मं जगमुस्हसा भीपीडिता वानैमेघ सशक्रु्यपराक्रमे महां शब्द बलौघ सेवर्त सागर से यहा तेन शब्देन महता सप्राकारा प्राकारा सतोरणा लङ्का प्रचलिता सर्वा सशैलवलकानना रामलक्ष्मणगुप्ता सा सुग्रीवेण चवाहिनी वाहिनी बभूवदुर्धर्षतरा सर्वैरपि सुरासुरैः राघवः सन्निवेश्यैवम् स्वसैन्यम् रक्षसाम् वधे सम्मन्त्र्यमन्त्रिभिः सार्धम् निश्चित्य च पुनः पुनः आनन्तर्यमभिप्रेप्सः क्रमयोगार्थतत्त्ववित् विभीषणस्यानुमते राजधर्ममनुस्मरन् अङ्गदम् बालितनयम् समाहूयेदमब्रवीत् गत्वा सौम्यदशग्रीवम् ब्रूहिमद्वचनात् कपे लङ्घयित्वा पुरीम् लङ्काम् भयम् त्यक्त्वा गतव्यथः भ्रष्टश्रीकम् गतैश्वर्यम् मुमूर्षानष्टचेतनम् ऋषीणाम् देवतानाम् च गन्धर्वाप्सरसाम् तथा नागानामथ यक्षाणाम् राज्ञाम् च रजनीचर यच्छ पापम् कृतम् मोहादवलिप्तेन राक्षसा नूनम् ते विगतो दर्पः स्वयम् भूवरदानजः तस्य पापस्य सम्प्राप्ता व्युष्टिरद्य दुरा सदा यस्य दण्डधरस्तेऽहम् दाराहरणकर्षितः दण्डम् धारयमाणस्तु लङ्का द्वारे व्यवस्थितः पदवीम् देवतानाम् च महर्षीणाम् च राक्षसा राजर्षीणाम् च सर्वेषाम् गमिष्यसि युधि स्थिरः बलेन येन वैसीताम् मायया राक्षसाधमा मामतिक्रमयित्वा त्वम् हृतमांस्तनिदर्शय अराक्षसमिमम् कर्तास्मि निशितैः न चेच्छरणमभ्येषितामादायतु मैथिलीम् धर्मात्मा राक्षस श्रेष्ठः सम्प्राप्तोऽयम् विभीषणः लङ्कैश्वर्यमिदम् श्रीमान् ध्रुवम् प्राप्नोत्यकण्टकम् न हि मच्छर स्व रणेशा तूत भविष्य यद्याशसी लोका स्त्री पक्षी निशाचरा मम चुपथाप्य न जीवन प्रतियासी ब्रवी मि हितम वाक्य क्रियता मऊर्धद सुदृष्टा क्रियता जीव मयि स्थितु सुताे राणा जगामाकाशमाविश्य मूर्तिमानिवहव्यवाट् सोऽतिपत्यमुहूर्तेन श्रीमान् रावण मन्दिरम् ददर्शासीनमव्यग्रम् रावणम् सचिवैः सह ततस्तस्यापि दूरेण निपत्य हरिपुङ्गवः दीप्ताग्निसदृशस्तस्थावङ्गदः कनकाङ्गदः तद्रामवचनम् सर्वमन्यूनाधिकमुत्तमम् सामात्यम् श्रावयामास निवेद्यात्मानमात्मना दूतोऽहम् कोसलेन्द्रस्य रामस्याक्लिष्टकर्मणः मालिपुत्रोऽङ्गदो नाम यदि ते श्रोत्रमागतः आहत्वाम् राघवो रामः कौसल्यानन्दवर्धनः निष्पत्य प्रति भव हन्तास्मित्वाम् सहामात्यम् स पुत्रज्ञातिबान्धवम् निरुद्विग्नास्त्रयो लोका भविष्यन्ति हते त्वयि देवदानवयक्षाणाम् गन्धर्वो रगरक्षसाम् शत्रुमद्योद्धरिष्यामि त्वामृषीणाम् च कण्टकम् विभीषणस्य भविष्यति हते त्वयि न चेत्सत्कृत्य प्रणिपत्य प्रदास्यति इत्येवम् परुषम् वाक्यं ब्रुवाणे हरिपुङ्गवे अमर्षवशमापन्नो निशाचरगणेश्वरः ततः सरोषमापन्नः शशाससचिवांस्तदा गृह्यतामिति दुर्मेधा चासकृत चासकृत् रावणस्य वचः श्रुत्वा दीप्ताग्निमिव तेजसा जगृहस्तम् रजनीचराः ग्राहयामासतारे यः स्वयमात्मानमात्मवान् बलम् दर्शयितुम् वीरो या तु धानगणे तदा सतान्बाहुद्वयासक्तानादायपतगानिव प्रासादम् शैलसङ्काशमुत्पपाताङ्गदस्तदा तस्योत्पतनवेगेन निर्धूतास्तत्र राक्षसाः भूमौ निपतिताः सर्वे राक्षसेन्द्रस्य पश्यतः ततः प्रासादशिखरम् शैलशृङ्गमिवोन्नतम् चक्रामराक्षसेन्द्रस्य वालिपुत्रः प्रतापवान् पफाल च तदाक्रान्तम् दशग्रीवस्य पश्यतः पुराहिमवतः शृङ्गम् वज्रेणेव विदारितम् भङ्क्त्वा प्रासादशिखरम् नाम विश्राव्य व्यथयन् राक्षसान् सर्वान् हर्षयंश्चापि वानरान् स मध्ये तु रामपार्श्वमुपागतः रावणस्तु परञ्चक्रे क्रोधम् प्रासादधर्षणात् विनाशम् चात्मनः पश्यन् निःश्वास परमोऽभवत् रामस्तु बहुभिर्हृष्टैर्विनदद्भ्यः प्लवङ्गमैः वृतोरिपवधाकाङ्क्षी युद्धा यैवाभ्यवर्तत सुषेणस्त्वमहावीर्यो गिरिकूटोपमोहरिः बहुभिः संवृतस्तत्र वाणरैः कामरूपिभिः स तु द्वाराणि संयम्य सुग्रीववचनात् कपिः पर्यक्रामतदुर्धर्षो नक्षत्राणीव चन्द्रमाः तेषामक्षौ हि निशतम् समवेक्ष्य वनौकसा लङ्कामुपनिविष्टानाम् सागरम् चाभिवर्तता राक्षसा विस्मयम् जग्मुस्त्रासम् जग्मुस्तथापरे अपरे समरे हर्षाद्धर्षमेवोपपेदिरे कृत्स्नम् हि कपिभिर्व्याप्तम् प्राकारपरिखान्तरम् दृशो राक्षसादीनाः प्राकारम् वानरीकृतम् हा हाकारमकुर्वन्त राक्षसा भयमागताः तस् महाभीषण के प्रवृत् कोलाहलेस राजोधा प्रगृह्य रक्षासी महायुधा युगाताव संचे इशे श्रीमद् राये वाक्युकांडे एक सर्ग